अन्तकायमृत्यमे नमः प्राणाः पाना इहते रमन्ता इहायमस्तु पुरोषः सहासो नासूर्यस्य भागे अमृतस्य लोके उदयनम् भगवाग्रभेदुदयेन सोमाम् सुमा देशोरिह प्राणै योनिहते मनाः उत्पात्या पाशेभ्यो देव्या वाचा भारामसे वृत्कामा च पुरुषामा वापत्सा पुरुभ्यम् वाचः भवताम् मातलिस्वादुभ्यम् मा वर्षम् त्वमृता व्यापाः सूर्यश्चेतम् वे एषम् तापादिताम् मृत्युदायताम् मात्मेष्ठाः मृत्यापुरुषलाभायानम् जै पातुम् जय दक्षतादिम् कृणोमि हिरोहे ममामृतम् सुखम् यथा मथा मा वदासि माते दे मनस्तत्रागान्नातिरोभोन्ना देवेभ्यप्रमादो मानोघात्पितृ विश्वे देवाभिलक्षम् दु त्रेह मा गाता न मादेशायेन यन्दिवरावतम् ज्योतिरेख्याते हस्तौ रभामहे रामश्च कामा शबलश्च प्रेषेणो यमस्य योपाधिलक्षेश्वानो अर्वागे हिमाविजेऽध्यामात्राभिष्ठः पराङ्मनाः वैकम् वन्था मनोगाभिमये शयेनपोर्पन्ने यथा तम् समायेतत्पोरुषमा प्रपक्षा भयम् बलस्तानुभायन्ते अर्वाच रक्षम् त्वग्नयो ये अप्स्वा आन्तरक्षामनुष्या आयमिन्दते वयिश्वानगो रक्षतु जातवेदादिव्यस्त्वामा प्रथा विद्युदा सह कव्यादभिमंस्तात्सङ्गासुकाच्च रक्षादुक्ताद्वो रक्षातु पृथिवी सूर्यश्चत्वा रक्षाताम् चन्द्रमाश्च अम्बरेक्षम् रक्षतु देवहेत्याः बोधश्चत्वाप्रदे बोधश्च रक्षता मः स्वप्नश्चत्वानवत्राणश्च रक्षताम् गोपायंश्च त्वाजागेव्यश्च रक्षताम् हे त्वा प्राणो बलम् हासेतु सन्दे मात्वा जम्भः सम्भाधर्मातमोऽधन्मा जिह्वा वरहः प्रमयोः कथास्याः उक्त्वादित्यावसावो भवन्तोदिन्द्राग्ने स्वस्तये उक्त्वाद्यौरुत्प्रसंप्रजापादिरग्रभेद उक्त्वा मृत्यो रोषाधयः सोमाराज्ञेरपेभरन् अयम् दे एव इहैवास्तायम् मामुत्रागादितः इमम् चावेर्येण मृत्योरुत्थारयामसे वृत्ता मृत्योरापे परम् सन्धानम् तु वयोधसाः माता आहर्षमवेदम् पा पुनराघाः पुनार्णवः सर्वाङ्ग सर्वम् तेजक्ष्म सर्व मायश्च देविदम् यावात् ते ज्योतेरभोदपत्पत्तमाक्रमेत् अपत्वम् नृत्कम् नर्वेजिमपायक्ष्मन्निगध्मसे युः पदराभरामिरदस्तमोहोपगामाप्रमेष्ठाः ये वा ताञ्ज्योदेरभ्य ह्यवामात्मा हरामि सदशादाय अवमुञ्जन्वृत्यपाशा न सन्द्राघेयायुः प्रतहरन्ते यत्ते मनस्त्व हि तद्धारयामि संवित्स्वाङ्घेत्वयापन्न प्राणेनत्वाद्युपदाम् चतुष्पदामग्निमेव जातमभिसन्धामामि नमस्ते मृत्या चक्षोष नमः प्राणायते करम् अयम् जमामृतेमम् समेरयामसे तृणाम्यस्तेभेशजम् मृत्या मापरोषम् वधेः ेवलाम् न गुशाम् जेवम् दे मोषधेमहम् प्रायमाणाम् सहमानाम् सहस्वदे मेहभो वेस्मारिष्टदातये ब्रोहिमादापसाश्वते मन्नतमेवलम् सर्वा या इहास्तु भवा शर्वो मृणतम् शर्मा यच्छतमपासिद्ध्या अस्मे मृत्योधिप्रोहे मुन्दयस्वादितो हरिष्ठः सर्वाङ्गः श्वश्रज्झलसा शतहायन आत्मनाभुदामस्नुता देवानाम् हे दिः पदक्त्वा वृणक्तु पारयामिपादजा समुक्त्वा मृत्योरापे आराधग्निम् क्रव्यादम् निरोहम् देवात वेतपरिधिम् दधामि य नियानम् गजा संवृत्य अनवधस्यम् असैमम् तस्माद्रक्षम् तो ब्रह्मास्मै वर्णा कर्मसे ऋणोमेत प्राणापानोदरा वृत्तम् देर्भमाय वैव स्वते न प्रहेतान्यमदोताम् सलतोपेधा वि सर्वान् आरादरातिम् निर्वेतिम् परोग्राहिम् क्रव्यादप्यशातोन् रक्षायत्सर्वम् निर्भोतम् दत्तमायि पापाहन्वसे अग्नेष्टे प्राणममृतादायुष्मतावन्वे जातवेजसः निशा न दृश्यामृदसजोलसस्तत्ते कृपामितदोते समृद्ध्यता श्वेते स्था वा पृथिवी आसन्तापे आभिश्रियौ सन्ते सोऽपदृषम् वातो वादेव ते शिवाभिक्षालन्त्या पयस्वतीः शिवाश्च सन्तोषधयमुत्त्वाः शमतलस्या उत्तराम् पृथिवीमभि तत्रत्वादित्यौ रक्षताम् सूर्यायम् द्रमसाबुभा यत्तेवासः परिधादय्यान् देवेन्द्रदृशे त्वम् शिवम् ते तन्वे एतत्त्वम् न संस्पर्शे त्वोक्षमस्तु रक्षुरेणामर्तया तासु तै चावप्तापपासि के च श्मश्रो शुभम् मुखम् माजायुप्रमोषेः श्रोते साम्रेः यपावापदाथावदोमधौ हेदौ यक्ष्मम् विबाधेते एदो मुम् ततोऽम् मासः रश्मासि यत् पिबासि धान्यम् कृष्याः आयदानाद्यम् सर्वम् ते अन्नमभिषङ्कृणोमि अह्ने चत्वारात्राय शोभाभ्याम् बले दत्मसे अरायेऽ्याजिघत्सुभ्या इमम् मे परे रक्षत स्वतम् दयुतम् हा यदा दययुगे त्रेणे चकारे गण्मः इन्द्राग्निविष्टे देवास्ते मन्यन्तामहेणीयमानाः शरदेऽत्ताहेमन्ताय वसन्ताय अग्रेष्माय परे दध्मसि पर्षाणि दुग्धम् सोनानि ये समर्थम् तमोषाधेः मृत्युरे एष द्विपदाम् मृत्युरे एषे चतुष्पदाम् कस्मात्पाम् मृत्यो गोपातेरुद्धरामि समागेभेः सोऽष्ठनमारिष्यसि नमारिष्यसि माविभेः न वैदत्रम् म्रियन्ते नोयम् कृधर्मम् तमाह सर्वो वै तत्र जीवति गौरश्वः पुरोषः पशुः यत्रेदम् ब्रह्म क्रियते परिधिर्जीवनायकम् परित्वापातुसमानेभ्योऽभिचाराः सबन्धभ्यः अभवामृतोदि देवो मातेहासिरसा पश्यदीनम् हे मृत्यवयेकशतैयानाष्ठादिताः कुञ्चम् तस्मात् देवा देवाज्ञेरथेश्व नरादधे अग्नेश्वरेरमधिपालयश्च रक्षोहासे सपत्न्याः अथवा चात नः स्फोतुर्दुर्नामाभेषजम् रक्षोहणम् आजिनमाजेघृमित्तम् रचष्टमुपायाभिशर्म शिशानो अज्ञक्रतोभिः समिद्धः स नोदिवासरिषः पादनक्तम् अयोदं स्वर्चुषा यातुधानानुपस्पुषशात् वेदः समिद्धः आजिह्यामोगदेवान्द्रहः स्वकुव्यादो मृष्ट्वापे ध्वासन् उभोभायादिन्दुपाधेहिदं सोऽहिंस्वश्रुशानो पारम् परम् च हुतान्तरिक्षपरीयाह्यज्ञेरम्भयः सन्धे अग्नेपचै यादधानस्य विन्धिम्स्राशनिर्हले साहन्त्वेनम् प्रभवान् जातवेदश्रनेः कव्याद्राविष्णुरुपिजेनात्वेन यत्रेदानीम् पश्यासि जातवेदस्तिष्ठन्तमग्न उत वाचकम् तम् उतान्तरिक्षेपदम् भै्यादधानम् तमस्ताविद्या शर्वाचानः यज्ञेशोऽ सन्नममानोऽग्ने वाताशल्या अशलेभिर्जिहानः प्राभिर्विद्धहृदये यातुन्पतेतो बाहोऽन्पते भङ्गेषाम् उतालब्धान्सृणिः जातरे न उतारे भानो वृष्टिभिर्याधानान् अग्ने पूर्वो निज हि शोशो जान इह प्रब्रोहयतमस्सोऽज्ञेयादुधा नो य इदम् कृणोति समादभस्मसमिधायैष्ठ नृचक्षषष्ठक्षोषरन्धयेन तेष्णेनाग्ने चक्षोषा रक्षयज्ञम् वाञ्चम् वृषभ्यप्रणाय प्रचेदः हिंस्रम् रक्षाम् च भिदसो जानम् मात्वादन्यादुधानानुचक्षः द्विजक्षारक्षफलेवश्य रिक्षदस्य त्रेणिप्रदेशमे ह्यग्रा तस्याज्ञे पृष्ठे रहराशासनेहत्रेधामूलै यातुधानस्य वश्चातुधानप्रदेन्दये कृतयो अग्ने अवेदे न हन्ते प्रवर्तिषा स्फोर्जयम् जातवेदः समक्षमेणम् गृणप्रेण यदग्ने अद्य मे धनाशपातो यद्वाचः सृष्ठम् जनयन्तरे भाः मन्यान्मनयदस्य भव्या आजातयातया विभ्य हृदय यातुधानान् परा शृणेः तपसा यातुधानान् पराग्ने रक्षा हलय सा शृणेः पश्रोशो सतश्रुमेः पराज्यदेवावृचिरम् च नन्दप्रत्ययेन सपथायन्तु सृष्टाः वाचास्तेनम् शरवलच्छन्त मन्मन्विश्वस्येत प्रथेदी यासुधानाः यः पौरोशे येन प्रविशासमन्ते यो अश्वेन पशुना यातुधानाः यो अज्ञायाफलादिक्षेरमज्ञे तेषाम् धेशा निः रसा देवश्च विषङ्गवाञ्जादुधानाफलम् तामावृच्छन्तामदेतयेतुरे दे परेणाम् देवस्य विताददातु परा भागमोषाधेनाञ्जयन्ताम् दे संवत्सरेणम् वया उत्स्रिया यास्तस्य माशे जातुधानानुदक्षः पीयौषमग्नेयतमस्तिकृत्य मत्षा विद्यामर्माणि स नादग्नेर्म रक्षाम् सुकृदानासु जिज्ञो सहमोरानोदः क्रव्यातो मादेहेत्यामुक्षत दैव्यायाः सन्न अग्नेतो दत्तस्तम् पश्चात् तरक्षा पुरस्तात् पचित्येते अजराशस्तपिष्टाखजम् संशोशोचकोदहन्तो पश्चात्पुरस्तादुधरादुतोत्तरात्कविः काव्येन पुरेपाक्यग्ने सखासखायमजराजलम्ने अग्ने मत्पामत्यस्पन्नाः तुरग्ने चक्षुप्रदेहिरे भेष भातुजो येन पश्यादियादुधानान् अथर्वमज्योतिशादैर््येरसद्गन्धोपम् तपथितोष फलित्वाग्ने पुरम् वयम् विप्रम् सहस्य धेमहे ऋषद्दर्णम् दिवे देवे हन्तारम् भङ्गुरावतः विषेण भङ्गुरावधप्रति स्म रक्षसाजिः अग्ने धिग्नेन शोचिशातपोरग्राभिलिभिः विद्योदेशाहलाभाग्निराविर्विश्वानिकृते महित्वा राजेवे मायास्थाय दुरेशिषे च शृङ्गे रक्षाभ्यो विलिक्ष्मे चे शृङ्गे अचरे जातवेदस्तिमहे चेद् ब्रह्म संशिते मभिदासम् दङ्गिमेदिनम् प्रत्यम् च मत्तिषा जातवेदो विनिक्ष्व अग्निरक्षाम् द्विषेधति चक्रोचेलमत्यः त्रिश पापाकजेद्याः इन्दा सोमातपातम् भक्ष्य उद्यतन्यक्षयतम् मृषणा णेतमचितोऽन्यो शतम् हतम् सुदेशाम् निशेषेतमत्रिणः इन्द्रासो मासमघजम् समभ्या आगन्तपुरुहेस्तु धनग्निमा एव ब्रह्म क्रम्याजे घोरगक्षसेशा सत्तमनभायम् के मेदिने इन्द्राः सोमा दुष्कृतो वव्रे अन्तनारम्भे तमासि प्रविध्यतम् यतो नैषाम् पुनरेकश्च नोदयत्तद्वामस्तु सहजे मन्यमच्छवाः इन्द्राः सोमा वर्तया तम् दिवोपर्यम् क्षताम् स्वर्या आम् पर्वतेभ्यो येन लक्षो बाहधानम् निजोर्वतः इन्दासोमा भर्तया तम् दिवस्तर्यज्ञतप्तेभिर्योमश्महन्मभिः तपोन्वदेभिरजलेऽभिरत्रिणानिपर्षाने विध्यतैयन्दो निश्वरम् इन्द्रासो मा फले वाम्भोतु विश्वता इयम् अजिपक्ष्याश्वजिना याम् वाम्भोत्ताम्बरिः नो मेधये मा ब्रह्मा इव जिन्वतम् रजत्फलेधाम् त्रिजयद्भिरेवे हृतम् द्रोहो रक्षसा भङ्गुरावातः इन्द्रासो मा दुष्कृते मा सुगम्भो द्यो मा कदा चेदभिता साद्रुः यो मापाचे तमना साचरम् तमभितष्टभिः मापायव काशिना सङ्ग्रभेदासन्नस्पासा च इन्द्रभक्ता ये पाकशङ्कम् विहरन्तये भयेन देवा भद्रम् दोषयन्ति स्वधाभेः महाये माताम् बलाव सोमावारुधादेस्थे को नालसंवित्सविद्वाज्ञे अस्माकमायः सनोधापुस्तैनस्थे जगद्दभ्रमे पृथिशरीराम् बन्वा आदना च परः सास्तु बन्वा श्च विश्वाः अजेशश्च दयशाश्च देहायो मातिपादिप्सादयश्च नक्तम् स्वविज्ञानम् चेदृशयजनाय स्यादच्चवच देवस्पृधाते प्रयोर्यत्सत्यय्य तदु दे यस्तदित्सोमोऽवतिहम् जासते विजयनम् नेनाति नक्षत्रयम् विधोयाधारयन् तम् हन्ति रक्षाहन्तसत्पदम् तमुभाविन्दस्य प्रसेदोषयाचे यदेवाहमगेददेवास्ति मोघम् वा देवा, देवा, देवा अप्योहे अग्ने किमस्मभ्यम् जातवेदो हृणेशे दोघवाचस्ते निरसम् गाजन्ताम् अद्यामोरे यदे यादुधानास्मि यदि वायुस्ततपूरोधस्य अथा सवेरेजभिर्मियो मामोघैयातो धानेत्याह धाने यो माया त्रियातो धानेत्याह यो मा रक्षाश्रुचेरस्मेत्याह इन्द्रः सम्हन्तु महादावधेन विश्वस्य जन्तोरथमस्पदेष्ट यादिगादिखर्गले वरक्तमवद्रोह स्थन्वा आङ्गुहामानन्दमवसावादेष्ठद्रावाणोघ्नन्तु रक्षसापब्धैः तिष्ठन्धम् मरदो विक्षेष्ठदा गृभायता रक्षसः सम्बेनष्ट नयोजे भोपातयन्ति रक्तभर्ये बालिपोदभिरे मानमिन्द्र सोमाजितम् अघवान् सम्भेशाखे प्राक्तो आपाक्तोऽधारादो दत्तो रक्षसः प्रवातेन एत उच्चैपातयम् तिश्पयात वैन्द्रम् निसम् तु निःप्सवोदाभ्यम् एतचक्रपिशोनेभ्योऽवदम् नूनम् त्रिदशदीयात्मद्भ्याः न्द्रा यातो नामा भवत्पदाशोः धर्मथेनामभ्या अभेदो अभेदोषामेव भिन्नान् सदयेदि रक्षसाः पु लोकजातुम् सुशो लोका यातुम् जहेश्वयातुमुत कोका यातुम् सुपर्णयादमुतगन्धायातम् दृशते भक्त्रप्राणलक्षा इन्द्र मानारक्षाभिनात्यात् मा न पाच्छन्तु मिथुना ये के मेदिनाः वृषमे रक्पाद्यवात्पात् त्वम् सोऽन्तरिक्षम् दिव्यात्पात्तस्मान् विग्रेवासोमोरादेवारदम् तुमाजदर्शम् सूर्यमुच्चरन्तम् प्रदेजक्षवि चक्ष्वेन्द्रश्च सोमजागृतम् रक्षाद्धावधमश्च तमचनीयातुमध्याः अयम् प्रातिसरोमगर्वेलो वेदाय वध्यते वेर्यवान् स्वपत्नः शोर वेरपरिपाणः सुमङ्गलाः अयम् मनः स पत्नः सुबेरः सह स्वान् वाजेशः मानमुग्रः प्रत्यक्प्रत्यादोषयन्नेऽतिवीरः अनेनेन्द्रा मणिना वृत्रमाहन्ननेन सोधान् परा भावयन्मनीषी अनेन जावा पृथिमे उभे इमे अनेनाजयत्प्रतिशश्च दत्सः अयम् स्वात्या मयप्रदेवत्तप्रतिसरः ओजस्वान्विवृथोऽवशेष अस्मान् पातु सर्वदाः शक्तिराहततो सोमाः बृहत्पले समिता ताः प्रेमे देवाः पुरोहिताप्रदे चे कृत्याप्रातिसरैराजन्तो अन्तर्दाधेद्यावाः पृथिवीवृताः ऋतसौर्यम् हेमे देवा पुरोहिताख्या चेत् कृत्याभ्यातिसदैराजन्तो ये साट्यम् मणिञ्जनावर्मा निते सूर्यायवति वा मारुक्य विकृत्या बाधदेवशी साट्येन मणिनर्षे नैव मनीहिना अजे संसर्भा त्याङ्गिरसेर्या कृत्यास्वयङ्ग्रहतायावोचान्यभिरावृताः वये स्थायन्द्वरावतो न वृन्नादे अस्मै मणिम् वर्मा वर्धन्द्वदेवायङ्गता रुद्रा अग्निः प्रजावादिपरमे च सर्वे उत्तमा अशोषधेनाम नग्भाम् जगादामिव व्याघ्रश्वदामिव यमेच्छामा वेदाम सर्वादिशो विनादियो विभक्त्येमम् मणिम् कश्यपस्त्वामाश्रत कश्चभस्त्वा सुमेरयत् अपि भक्सेन्द्रो मानोषविभ्रत्सम् श्रेशिणेरयत् मणिम् सहर्षवीर्यम् वर्म देवाकुर्म यस्त्वाकृत्या भर्यस्वादेक्षाभिर्यज्ञे यस्वादिशाम् ते प्रत्यक्त्वमिन्द्रतञ्जहि शतपार्वणा अयविद्वये प्रदेभक्तवोजस्वान् सञ्जयामणिः रक्षदु मङ्गलः रसभन्ना सदा वक्तन्न उत्तरात् इन्दान्न पश्चाद् ज्योतिष्योरपुरस्कृते परम मेद्यावा शिवेव मेन्द्रश्चाज्ञश्च वर्म धातादधातु मे हैन्धाज्ञम् वर्म महोदय सग्रम् विश्वे देवानातिविध्यम् त्रिवर्वे तन्मे तन्मम् प्रायताम् सर्वतो बृहदा युष्माम् जलदश्चिर्ये े चिनाभिसंवेषद्धम् च लोपालम् त्रिवरोधमोच अस्मिन् इन्द्रा निदधातु निम्नभिमम् देवासाभिसंवेशद्धम् वे अग्रायित्वाय शतशारदायायस्माञ्जलदष्टिर्यथा सत् स्वस्तिना विशाम् वचर्वत्रहा वे मृथा वशी इन्द्रा बध्नातु च भयङ्करो वृषा सर्वारक्षतसर्वतो विश्वदाः यौते मातोन्ममार्जाता जाप्रतिवेद नौ गरुणाथत्रमालेखदम् च उत वत्सवाः कलालानुपलालो हम् गोकम् बलिम् भृजम् फलीजाकम् आश्रेयसम् बहु देवासु संवृक्षग्रेवम् प्रमेलिनम् मा संवृतोमोपासुपूरो मा वासुपान्तलाम्यस्येभय जलम् भजम् दुर्णामचादनम् यः कृष्ण केशोरस्तम्बद उत तुण्डेकः रयानस्यामुष्काभ्याम्भम् ससोपाहन्मते अनचिक्रम्बन्तम् क्रनुयाजमुदरेरिहम् अरायाञ्च विष्किना भजप्लिङ्गानेन सत् कष्टा स्वप्ने निपद्यपेभ्राता भूत्वा रयस्तान् सहसामिदः क्लेवलोपां सुरेपिनाः यस्त्वा स्वबन्धे सरादि यस्त्वादिप्सादिजाग्रदे छायामेव प्रदान् सौर्यः परिक्रामम् मनीरस यः प्रणोदे मृतवत्सामगातोकामिमां स्त्रियम् समाशधयत्वम् नाशया स्यात् कमलामञ्जिवाम् ये शालाः परिवृत्यम् दिशायम् गतपनादिनाः कुशोलाय च कुक्षिला च कुभाः करुमाश्रिमाः तानोत्वम् गन्धेन विनाशय ये कुकुन्धाः कुकोरभाकृत्तेऽर्दोषाणि बिभ्रते एव प्रणत्यन्तो वने ये कुर्वते घो नाशयामसे एषोर्यन्तपन्तममुम् दिवः अनायान्वस्तवासिना दुर्गन्धेर्लोहे तास्यान्मकान्नाशयामसे य आत्मानामसि आधाय बिभ्राति श्रीणाम् श्रणि प्रसादिन इन्द्रलक्ष्यांसि नाशय हे गोर्वेवयन्ति हस्ते शृङ्गाणि बिभ्रातः आपाचेष्ठाप्रहासिनस्तम् वेजय कुर्वते चोतिष्ठानि जो चो नाशयाम येषाम् पश्चात्प्रपादानि पुरः शोमचावरुण्डाय च मद्मटा कुम्भमुष्काया शवाः तालस्याः ब्रह्मनस्पदे प्रदे बोधेन नाशय पर्यस्ताक्षात्प्राशङ्कशास्त्रैनाः सन्पण्डगाः भेजगदपादयैमान् संविवत्सप्तपादस्वपादिम् स्त्रियम् उद्धर्षणम् मुनीकेशम् शम्भयन्तम् मरे मृषम् उपेशन्तमुदुम्बलम् पुण्डलमुदशालोढम् तदा प्रवेध्यपाष्णा स्थाले गौरेव स्पन्दना यस्यैकब्धम् प्रतिमृषा जातम् वा मारयादिङ्गस्तमुग्रधम् वा शृणोदो हृदयाविधम् हे अम्नो जातान् मारयन् दिशोदेकानुषेद श्रीभागान्पिङ्गोगन् भवान् भाग अभ्रमे वाजतु फले षष्ठम् धारयति यद्धिदम् मा वा विजत् करथम् न पवेन सा त्वम् बल्वा आच्छाय गादुकलज्ञा प्रजायेव चेत्ता विङ्गः फले पादुकिमे जिनाः या स्याश्चतुरक्षात्पञ्चापादादनम् गुरयः वृन्तादशप्रसर्पादः फले बाहि वरे वृतात् य आमम् माम् समदन्तिमौरोहे यम् गर्भान् खादन्ति केशवास्थानितो नाशयामसि ये सूर्यात्परिषपम् यस्पृशयश्वशो धातथे वयश्च तेषाम् लिङ्गश्च हृदयधि निबिध्यताम् लिङ्गरक्षजायमानम् मापुमाम् सां श्रियम् क्रन् आण्डादो गर्भान् माता अप्रजास्त्वम् माश्च वत्समाद्रोदमखमा वयम् रक्षादेवश्रयम् वृत्ताप्रेयप्रदेमम् च तत् यभोयाश्च शुक्रारोहेणे वृतपृष्ठा यः असि ज्ञे स्पृष्टावोषधेः सर्वा अच्छावदामसे कालिन्तामिमम् पुरोषे यक्ष्माद्येशे दादधे पृथिवे माताजामुद्रोमूलम् निरुधाम् बभूव आहो अग्रम् दिव्याघोषाधयः अग्रं दिव्या यक्ष्मा मे न स्या आमङ्गादङ्गादने न सन् वशृणते स्तम्बिने लेखा शृङ्गाकृदन्दा ते घोषाधीरावधामि अंशुमदेः काण्ड्येर्या विशाखात्मयामि देवेरुधा वहेश्व देवेरुग्राः पुरुषजीवनीः सहस्रहमानाभीर्या आयुज्य मोबलम् तेनैवस्माद्यक्ष्मात् पुरोषम् जदौषधेरसोक् नाम भेषजम् जीवनान्न घार्षान्ध्येवन्दे मोष धेमहम् अरुन्धते मुन्नयन्ते पुष्पाम् असोम देमेऽहोमेश्वारिष्ठतादये इहायम् तप्रचयतसो मेदिनेवच्च सो मम क्षेमम् पालयामसि पुरोषम् दुरितादथे अग्नेर्घासो अपाङ्गध्वयारोहन् पुनार्णवाः ध्रुवाः सहस्राणाे भेषजे सन्ताधृता अपगोल्पा उदकात्मा नवोषरथयः गृहन्दशम्भेष्वश्ज्ञाः उन्मञ्चन्तेर्ववरुणामुद्राया वेषदोषाणीः अथ पलाधनाजाने कृत्या दोषाणेश्चयास्ता इहायन्तोषाधीः अपक्रेताः सहेयसेर्वे प्रायन्तामस्मिन् ग्रामे गामः श्वम् पुरोषम् पशुम् मधो मन्नोरम् मधो मदग्रामासाम् मधो मन्मध्यम् मेरुधाम् बभोव मधो मत्पर्णम् मधो मत् पुष्पामासाम् मधोः सम्भक्तामृतस्य भक्षो हृतमन्नम् दुक्लताम् गोपो रागवम् याव्यदेश्चे मा पुर्वेरुधाम् त्रायमाणोभिरश्चिवाह अमेवाः सर्वा रक्षाम् शाहन् वधे दूरमस्मत् सिंहस्यैव स्थलसा संवेदन्त ज्ञेरेव विदन्ताभृताभ्यः कायश्व पुरोषाणाम् भेरुद्भिरते नुक्तो नाव्यायेदुस्र ेदया दया राजा वनस्पतेः यारोऽहम् जाङ्गिरहे पर्वदेश समेषो च सा न प्रयश्ववोषाधेः सन्त सम्भृते नाश्चाहम् वेदवेरुधायाश्च मस्यामिदक्षोषा अज्ञाताजामश्च या यासो विद्मजा सम्भृतम् पर्वाः समग्रावोषधेबोधन्त्वव च सोम पृथे मुन् पारयाम शिपरोषन्तु निजादधे अश्वत्सौ दग्भोले रथाम् सोमो राजामृतम् स्यामृतस्येवम् बलम् पुरोशम् वाययामसे अथो तृणामि भेषतः जनः पराहो वेदवेरुधम् न कुलो वेदभेषजे सागम् भर्वाया विदुःस्ता अस्मा अवसेभुवे यासो वर्णाङ्गिलसेद्य ृाया विदुरोषाधेश्च अस्मा वासे हुवे फलेरफला सम्मातरा यो दुःक्रामस्मारिष्टतादये उक्त्वाहारम्पञ्च शलाद छोदशा शलादुता असौ यमस्य पद्वेशाद्विश्वस्मात् जगिल्विषाद् इन्द्रामन्थसमन्थे दाक्ष्वशौरः पुरन्दरः यथाहनामसेनामित्रा स्वादासताम् भयम् अमो नश्वत्थनश्रेणेः खादामोन् काजलाजलम् प्रागद्धङ्गायैव भज्यन्ताम् हन्तनाम् वधा गोवधेः परुषानमोन् परुषाः क्व न तु चलयेव भज्यन्ताम् बृहज्जालेन सन्देदाः अन्तरिक्षालमासे जालदण्डादृशो महेः तेनाभिधायदस्यो नाम् शक्रस्य नाम, नाम पावपत् सतम् धात्र मय सन्यस्तुतम् विघाल शक्रोदस्यो से नामभिधाय सेनाया अयम् लोको जाल मासे चक्रस्य महतो महान् तेनाहमिन्द्र जाले नामोस्तम ना साभि दधामि सर्वान् शेत्रा वृद्धिनार्तिश्च शमश्चन्द्रेश्च मोहश्च दैनमोऽनपि दधामि सर्वान् मृत्यभेमोऽन्प्रयच्छाम मृत्युपाशेन मेसिताः मृत्योर्ये अखला दोतास्तेऽभ्यायेनान् तदेन यामि मध्वा यया कामोन्मृत्युदोताय मा दोतापोऽम्भद फलः सहस्राहण्यन्ताम् तृणेद्वे मत्यम् भवस्य साध्यायेकम् जालदण्डमुद्यत्ययम् चोजसा रुद्रायेकम् वसा भयेकमादित्यैरेकमुद्यतः विश्वे देवा उपरिष्टादुज्जन्तो यन्तोजसा मध्ये रग्धन्तोऽयम् तु सेनामङ्गेरसो मही न्वानस्पत्या नोषाधेरुतमेरुधाः विपाच्यदृष्ट्वा दृष्टा मे यथा सेना ममोम् हनन्न गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् विद्रे दृष्टा न दृष्टा नष्टा मे यथा सेना ममोम् हनन् इममुक्त्वा मृत्युपाशाया हन्तु सेनाया इदम् कोटम् सहस्र घर्मः समिद्धो अग्निनायम् होमः सहस्रहः भवश्च वृष्ट्ये बाहोश्च सर्वसेना ममोम्भागम् मृत्योराशमापद्यन्ताम् क्षुधम् सेनिम् भयं। भयम् इन्द्रश्चाक्षुजालाभ्याम् सर्वसेना ममोम्हम् पराजिताप्रदासतामित्रानुक्ताधावतब्रह्माण बृहस्पतिप्रलुप्ता धाम् मामेषाम् मोदिकश्च न अमापद्यन्तामेषा मायोधा हिमाशा कम् प्रतिधामिषम् अथेषाम् बहुविभ्या तामिष बोघ्नन्तु पर्माणि सङ्ग्राहशता मेनाञ्ज्ञावाेषमन्तरिक्षम् सह देवताभिः मा ज्ञातारम् मा प्रादिष्ठाम् मेदम् दमिच्छो विज्ञानामुपायन्तु मृत्यम् त्रिशश्च तस्याश्वतव्यो देवरथस्य पुरोणाशाश्व अन्तरिक्षबुद्धिः पृथिवीवक्षेदवो भेजवोन्दर्धे च किम् करावाक् परे रथ्यन् संवत्सरो रथ परिवत्सरो रथ वत्सो विरामेशासमुखम् इन्द्रः संयष्टाश्चन्द्रमा सारथिः यतो च येतोऽपि च यसञ्जाय जयः इमे जायन्त परामि जायन्ताम् स्वाहेभ्यो दुराहा मेभ्यः देवलोहिते दे नामो नभ्यवशनोमि कुतस्तौ जातो गातमः तमस्तो अस्माकात् गातमस्याः का वर्षौ विराजस्य लीला हृदे ताम् तौ त्वा पृच्छामि ककारेण दुग्धा लोः क्रन्दयत्स निलम्बा हित्वा योनिम् कृत्वा त्रिभुजं सयानः वत्सखा मधुघो विराजः स गुहाचक्रेदण् पराजेः या लित्रे ने बृहन्ते येषाम् यदर्थम् मे युनग्निवाचम् ब्रह्मै न त्रिद्ध्यात्तपासा पश्चिद्यस्मिन्नैकै युज्यते बृहदपरिषामालिषष्ठा पञ्चाधिनिर्मिता बृहदृहत्या निर्मेतनुकृतोधे बृहते मिता बृहदे परिमात्राया मातुर्मात्राधिनिर्मिता मायाः जज्ञे मायाया मायाया मातालेपले वैश्वानलस्य प्रतिमोपलज्यौर्या भद्रोदयसे विपमाधे अग्निः ततः षष्ठादामुदोयन्ति स्तोमामुदितोऽयन्त्यभिषष्ठमह्नाः षष्ठाः वृच्छामनुषा यकस्य वेदे त्वम् हि युक्तेयो युक्षेयोग्यम् च विराजामाहर्ब्रह्मपितरम् तान् नो विधेतिधासगेभ्यः याम् वृत्योदामनो यज्ञा प्रत्यवन्तौ पतिष्ठन्तौ पतिष्ठमाना यस्या व्रते प्रसवे यक्षमे च सा विराट् देशयः परहमेऽ्यो मन् अप्राणेन प्राणेन प्राणदेनाम् विराट् स्वराजामभ्येति पश्चात् विश्वम् वृशन्तेमभिरोपाम् पश्यन् दित्वेन ते पश्यन्त्येना को विराजो विशुनत्वम् प्रवेदकरुतोऽकमुकुन्दस्याः न्तोऽ स्याः प्रतिधा विदुग्धान् कोऽस्याधाम प्रतिधाव्युष्ठी इयमेवयाप्रसमाव्योचनास्ति दारासुचरतिप्रविष्ठा महान्तोऽस्याम् महिमानोऽन्तर्वधोजीकायनवागजनित्री षण्पक्षापे पैशाने समानयो निमनुसञ्जलेत् सूर्याभत्तेजम् चारतप्रजा ने गेतमदे अचले भूरिरेतसा रतस्य वन्धामनो दिस्सा दुष्टयो धर्मा अनुरेता गोः प्रजामेकाजन्मत्योर्जमेकाराष्ट्रमेका रक्षसि देव यूना अग्ने सोमावदधुर्या सुरीयासेत्यज्ञस्य भक्षाविषाय कल्पयन्तः यत्रेन् दृष्टुभञ्जगादेष्टुभम् बृहदग्ने यजमाना यः स राभरन्ति पञ्चव्यश्चेरपञ्चदोहाकाम् पञ्चालाम् नेभृतवान् पञ्च पञ्चदशः पञ्चदशलकृत्तास्ता एकमूर्धेरभिलोकमेकम् षड्जाता भूता प्राचमलग्नस्य षडसामानषडहम् वाहन्ति षड्योदम्से रमृषा मासाम षडा होद्यावाः पृथिवे षडुर्वीः षडाहु शेदाम् षडो मासमुष्णातन्ना प्रोदयध मोदेरिक्तः सप्तदो पर्णास्तवयोषे सप्तच्छन्दां शनो सप्तदीक्षाः सप्तहो मा समिधोः सप्तमधो ऋसप्तमो सप्त सप्ताद्याः विपरे भोतमःन्ताः सप्तगृद्धा तेषु श्रमा वयम् सप्तच्छन्दाम्सि चतुरपरान्यो अन्यस्म्यौनध्यार्प्येतानि कथम् स्तोमाप्रदेतिष्ठन्ति ते शतानि स्तोमे तु कथमार्प्येतानि कथम् गायत्रेऽत्र मृदम् व्यापकथम् प्रश्नः पञ्चदशेन त्रयस्विम् च न जगदे कथमानष्ट प्रथमेकविंशः अष्ट जाता भूताप्राथमधत्तस्याश्चेन्नत्यजोदैत्याये अष्टयो निरुदेतिरष्टपुत्राष्टमे रात्रेमपि हव्यमेते इत्था यो मन्यमाने समाग मयि यस्माकम् दर्ख्ये अहमस्ति सेवा नजन्हाकोरश्चिवः शिवः स वः सर्वाः सञ्चारजप्रजानन् अष्टेन्द्रस्य चमत्सृहेनाम् सप्त सप्तधा अपोमानुष्या आनोस्ता भोजानोजिर केवलेन्द्रायदुहेहि दृष्टर्वशम् पेयोषम् प्रथमम् दुहाम धा दर्पयश्चतुरश्चतुर्धा देवान्मनुष्यासूरा नृतर्शीन् को न गौर्पयेकदृशे किमुमक आशिषाः यच्छम् वे ध्यामेकवृदे कर्तक तमो मृदः एको गौरेक एकदशिने कम्धा मे कदाशिषाः यच्छम् वृव्यामे गभृते गत्वम् नातिरिच्यते विराट्रा इदमग्रा चेत्तस्याताया सर्वामृभेदम् भविष्यतीति सोदक्रामत्सागारः वत्येऽन्य क्रामते गृहमेधे गृहवादर्भवति य एवम् वेद सोदक्रामत्साहवनीयेऽण्यक्रामते यन्त्यस्य देवा देवहोदिम् प्रियो देवानाम् भवति य एवम् वेद सोदक्रामत्सा दक्षिणाज्ञोऽन्यक्रामत यज्ञतो दक्षिणीयो वासदेयो भवति य एवम् वेद सोदक्रामत्सा सभायान्यक्रामत यन्त्यस्य सभाम् सभ्यो भवति य एवम् वेद सोदक्रामत्सा समेतोऽन्यक्रामत निरञ्जस्य समेजिम् सामित्यो भवति य एवम् वेद सोदक्रामत्सामन्त्रेणेण्यक्रामद यञ्जस्यामन्त्रेण मामन्त्रणीयो भवति य एवम् वेद शोदक्रामत्सान्तरिक्षेतदर्धाभिक्रान्ता तिष्ठत् पान्देव मनुष्याब्रुवन्नियमेव तद्वेदयदुभयावुपजीवे मे माह्वयामः इति आमुपार्पयन्त वोच्चये ह्यवधाये ह्योर्दये हि ही रावर्त्यै हीति तस्या इन्द्रा वत्साशे यज्ञा यज्ञभिधान्यप्रमोधाः बृहच्च रन्तरम् शब्दौ स्तनावास्थायञ्यज्ञा यज्ञम् द्रावधेव्यम् शब्दौ ओजाधे दे देवरथन्तर गजो बृहता अपो वाम देव्येन यज्ञ यज्ञ यज्ञेन ओषाधिरेवस्मै रथङ्करम् दोहे व्यजो बृहत् अपो वाम देव्य यज्ञ यज्ञ यज्ञय्य तस्मात् वनस्पतीनाम् संवत्सरे वृक्षमपि रोहति पृच्छते स्यात्तेयो भ्रातृव्यय एवम् वेद सौलक्ता मत्सा पितृणागच्छताम् पितलाखासितमाभवत् द्था तस्मात् पितृभ्यो मास्युपरमास्यन्दप्रवित्रयाणम् पन्थान्दानादिय एवम् वेद सोऽगक्रामत्सा देवानागच्छत्ताम् देवाग्नतः सार्धमासे समाभवत् तस्माद्देवेभ्योऽर्धमासे वशः कुर्वन्ति प्रदेवयानम् पुन्थानादि य एवम् वेद सोऽगक्रामत्सा मानुष्या आगच्छताम् मानुष्याघ्नतः सा सद्यः ष्ये न उभय द्विरुपाहरन्त्युपास्य गृहे हरञ्ज्य एवम् वेद सो लग्रामत्सासो रामागच्छत्तामधो रामुपा क्वयम् तपा ये हि तस्या विरोध रक्षाक्रा दुर्भत्साधीयस्पार्थम् जीवनीय भवति य एवम् वेद सोरक्रामर्त्सा पितरेणागच्छत्ताम् पितरमुपा त्वयन्तस्वधायेहीति तस्या यमो राजा वत्साधे दशतपात्रम् पात्रम् पात्रम। कामन्त गोमात्यवोधोत्ताम् समहमे माधोक् ताम् स्वधाम् पितरमुपा जीवम् जुपजीवनीय सोदका वत्समानुष्या आनधच्छब्दानुष्या आमुपाकयम् च रावर्त्यहि कस्यामलो वैव सतो वत्साहेत् पृथिवी पात्रम् ताम् पृथे वैन्योक्ता कृषिम् च सस्यम् जाधोके कृषिम् च सस्यम् ष्टरातरुपदेवनेया भवति यम् सोऽक्रामत्सा सप्तऋषेनागच्छत्ताम् सप्तऋषयमुपाक्वयन्तः ब्रह्मन् वत्येहीति पश्या सो मोराजाः वत्सा सेच्छन्तः पाक्रम् ताम् बृहस्पते राज्ञरसोः भोक्ताम् ब्रह्म तद्ब्रह्म गतपश्च सप्त ऋषयमुपदेवम् ब्रह्मवाच्यस्योपदेवनी भवति य एवम् वेद सोदकामत्सा देवानागच्छत् ताम् देवामुपाश्वयन्तो जलेहि तस्या दे। इन्दो वत्सामहः पात्रम् ताम् देवस्या विदाधोक्तामूजामेव मोर्जाम् देवा उपाजे वन्त्युपजयने यो भवति य एवम् वेद सौर्यकामत्सागम् भर्वात्सरसा गच्छाङ्गम् भर्वात्सरसमुपायन्तपुण्याकन्धये अस्याश्चित्तराधः शौर्यवर्चसो वत्सरसेत्पुष्करपर्णम् पात्रम् ौर्याच्चताम् पुण्यमेव गन्धमाधोग तम् पुण्यम् गन्धम् गन्धर्वाचनसमुपजीवन्ति पुण्या गन्धिरुपजीवनीय भवति एवम् वेद सोजकामत्सेदारजनामागच्छत्ता इतरजनाववाक्वयम् ततिरोधये स्यार्पुवैरो वैश्रवणो वत्सासे धाम पात्रम् पात्रम् ताम् वेदनाभिक्ता वै रको धोक्ताम् ते रोधामेव ताम् रो ते रोधा मे तलतला उपाधेवन्ति निरोधत्ते सर्वम् पाप्मानमुपजीवनीय भवति य एवम् वेद भोगत्रा मत्सा सर्पागच्छत्ताम् सर्पा उपाक्वयन्तविषवर्त्येहेति तस्यास्तक्षगो वैशालेयो वत्साशीलामुपात्रम् पात्रम् ताद्धृतराष्ट्रैरावतोऽक्तान् विषमेवाधोके तद्विषम् सर्पा उपाजीवन्त्युपजीवनीयो भवति य एवम् वेद द्यस्मा एवम् विदुषे लाभोदाभिषम् च प्रत्याहन्यात् न च प्रत्याहन्यान्मनसार्था प्रत्याहन्ये य प्रत्याहन्यात् यत्प्रत्याहन्ते विषमेव तत्प्रत्याहन्ते विषमेवास्याप्रेयम् भाद्रव्यमनुविशिश्च तेय एवम् वेदा